अथ द्वाविंशः सर्गः अथ तम् यथ यादीनम् सविशेषमर्षितम् स रोषमिव नागेन्द्रम् रोष विस्फारिते क्षणम् आसाद्य रामः सौमित्र्यम् सुहृदम् भ्रातरम् प्रियम् उवाचेदम् स धैर्येण धारयन् स त्वमात्मवान् निगृह्य रोषम् शोकम् च धैर्यमाश्रित्य अवमानम् निरस्यैनम् गृहीत्वा हर्षमुत्तमम् उपक्लृप्तम् यदेतन्मे अभिषेकार्थमुत्तमम् सर्वम् निवर्तय क्षिप्रम् कुरु कार्यम् निरव्ययम् सौमित्रेयोऽभिषेकार्थे मम सम्भारसम्भ्रमः अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः यस्यामदभिषेकार्थे मानसम् परितप्यते माता नः सा यथा न स्यात् सवि शङ्का तथा कुरु तस्याः शङ्कामयम् दुःखम् मुहूर्तमपि नोत्सहे मनसि प्रति सञ्जातम् सौमित्रेऽहमुपेक्षितुम् न ना बुद्धिपूर्वम् नाबुद्धम् स्मरामीह कदाचन मातॄणाम् वापि दुर्वाहम् कृतमल्पम् च सत्यपराक्रमः परलोकभयाद्भीतो निर्भयोस्तु पिता मम तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते सत्यम् नेतिमनस्तापस्तस्य तापस्तपेच्च मा अभिषेकविधानम् तस्मात् संहृत्य लक्ष्मण अन्वगेवाहमिच्छामि वनम् गन्तुमितः पुरः मम प्रव्राजनादद्य कृतकृत्या सुतं भरतमव्यग्रमभिषेचयताम् ततः मयि चीराजनधरे जटामण्डलधारिणी गतेरण्यम् च कैकेय्या भविष्यति मनः सुखम् बुद्धिः प्रणीता येनेयम् मनश्च सुसमाहितम् तम् तु नार्हामि सङ्क्लेष्टम् प्रव्रजिष्यामि माचिरम् कृतान्त एव सौमित्रे द्रष्टव्यो ज्यस्य च वितीर्णस्य पुनरेव निवर्तने कैकेय्याः प्रतिपत्तिः कथम् स्यान् मम वेदने यदि तस्या न भावोऽयम् भवेत् जानासि हि यथा सौम्य न मातृषु ममान्तरम् विशेषो वा तस्या मयि सुतेऽपि वा सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च उग्रैर्वाक्य न्यदवात्म कथं प्रकृति सपन्नाजपुत्री तथा गुणा ब्रूयात्सा प्राकृते वस्त्री मपीड्य भर््रधौ यद चिंत्यंत तदवते ना व्यक्त मयि चति विपर्य कौम योद्धु मुत्सहते यस्य अनुग्रहणम् किञ्चित् कर्मणोऽन्यन्न दृश्यते सुखदुःखे भयक्रोधौ लाभालाभौ भवा भवौ यस्य किञ्चित् भूतं ननु दैवस्य कर्म तत् ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः उत्सृज्य नियमाम्स्तीव्रान् भ्रश्यन्ते काममन्युभिः असङ्कल्पितमेवेह यदकस्मात् प्रवर्तते निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत् एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना व्याहतेऽप्यभिषेके मे परितापो न विद्यते तस्मादपरितापः संस्त्वमप्यनुविधाय मा प्रतिसंहारय क्षिप्रमाभिषेचनिकीम् क्रिया एभिरेवघटैः सर्वैरभिषेचनसम्भृतैः मम लक्ष्मणतापस्यैव व्रतस्नानम् भविष्यति अथवा किम् मयैतेन राज्यद्रव्यमयेन तु उद्धृतम् मे स्वयम् तोयम् करिष्यति मा च लक्ष्मणसन्तापम् कार्षीर्लक्ष्म्या विपर्यये महोदयः न लक्ष्मणाऽस्मिन् मम राज्य विघ्ने मातायवीयस्य अभिशङ्कितव्या दैवाभिपन्ना न पिता कथञ्चिज्जानासि दैवम् हि तथा प्रभावम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे द्वाविंशः